कुमारसम्भवं सर्गम् इलवन् अभ्यर्ध्यमाना विबुधैः समग्रै प्रह्वै सुरेन्द्रप्रमुखैरुपेत्य तं पाययामास सुधादिपूर्णं सुरापगास्वां स्तनमाशुमूर्ता पिबन् स तस्यास्तनयोः सुधौखम् क्षणं क्षणं साधु समेधमानः प्रापाकृतिं कामपि षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः भागीरधीपावककृत्तिकानामानन्दबाष्पाकुललोचनानां तं नन्दनं दिव्यमुपातुमासीत् परस्परम् प्रौढतरो विवादः अत्रान्तरे पर्वतराजपुत्र्यात् समं शिवस्वैरविहारहेतोः नभो विमानेन विगाहमानो मनोधिवेगेन जगाम तत्र निसर्गवात्सल्यवशाद्विवृद्ध शेदप्रमोदौ गलदश्रुनेत्रौ अपश्यतां तं गिरिजागिरीशौ शा। षडाननं षड्दिनजादमात्रम् अथाह देवी शशिखण्डमौलिं कोयं शिष्योर्दिव्यवपुः पुरस्ताद् कस्याद्धन्यतमस्य मातास्य का भाग्यवतीषु धुर्या स्वर्गापगा सा वनलोयमेताः षट्कृत्तिका किं कलहायमानाः पुत्रो ममायं न तवायमिद्धं मिथ्येदि वैलक्ष्यमुदाहरन्ति यतेषु कस्येदमपत्यमीषा किल त्रिलोकी तिलकायमानम् अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु श्रुत्वेदि वाक्यं हृदयप्रियाया कौदूहलिन्या विमलस्मिदश्रीः सान्द्रप्रमोदोदयसैक्यहेदुभूदं वजो वोचद चन्द्रचूडः जगत्रयीनन्दन एष वीरप्रवीरमादुस्तव नन्दनोऽस्ति त्वत्तो कल्याणकरसुराणां त्वत्तोपरस्याकथमेष सर्गः देवि त्वमेवास्य निदानमास्ये सर्गे जगन्मङ्गलगानहेदोः सत्यं त्वमेवेदि विचारयस्वरत्नाकरे युज्यत एव रत्नम् अदशृणुष्वहितेन वृत्तं बीजं यदग्नौ निहितं मया तत सङ्क्रान्तमन्दस्त्रिदशापगायां तदोवगाहे सदि कृत्तिकासु गर्भत्वमाप्तं तदमोखमे दत्ताभिशरस्तम्बमधिन्यधायि बभूव तत्रायमभूदपूर्वो महोत्सवोऽ शेषचराचरस्य अशेषविश्वप्रियदर्शनेन धुर्यात्वमेधेन सुपुत्रिणीनाम् अलं विलम्ब्याचलराजपुत्रिः अधेदि वादिन्यमृदांशु रभसेन सद्यः सान्द्रप्रमोदेन सुपि न गात्री धात्री समस्तस्य चराचरस्य किरीटबद्धाञ्जलिभिर्नभस्तैर्नमस्कृदा सत्वरनाकि लोकैः विमानतो दरदात्मजं तं गृहीतुमुत्कण्ठितमानसा भूत् स्वर्गापगा पावककृत्तिकादीन् कृताञ्जलिनान्नमतोऽपि भूयः इत्त्वोत्सुका तं सुतमाससाध पुत्रोत्सवे माद्यदि का नर्षात् प्रमोदबाष्पाकुलोचनासानदं ददर्श लेन परिस्पृशन्तीकुङ्गुमलेन कु... करकुङ् प्रमोदबाष्पाकुलोचनासनतन्ददर्श क्षणमग्रतोऽपि परिस्पृशन्ती करकुट्मलेन सुखान्तरं प्राप किमप्यपूर्वं सुविस्मयानन्दविकस्वराया शिशोर्गलद्बाष्पतरङ्गितायाः विवृद्ध वात्सल्यरसोत्तराया देव्या दृश्योर्गोचरतां जगाम तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छद सानन्दनालोकनमङ्गलेषु क्षणं क्षणं तृप्यधि कस्य विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पाणिसरोरुहाभ्यां नवोदयं पार्वणचन्द्रचारुं गौरीस्वमुत्सङ्गतलं निनाय स्वमङ्गमारोप्य सुधा निधानमिवात्मनो नन्दनमिन्दुवक्त्रा तमे जगदेकवीरं तमेकमेषां निसर्ग निसर्गवात्सल्यरसौखसिक्दा सान्द्रप्रमोदा मृद पुरपूर्णा तमेकपुत्रं भ्युत्संगिनं प्रस्त्रविणी बभूव अशेषलोकत्रयमाधुरस्याः षाण्माधुरस्तन्यसुधामथासीद सुरस्रवन्ध्या किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृतमीक्ष्यमाणः सुखाश्रुपूर्णेन मृगाङ्गमौलेः कलत्रमेकेन मुकाम्बुजेन तस्यैकनालोद्गत पञ्चपद्मलक्ष्मीं क्रमात् षड्वदनीं चुचुम्ब हैमीफलं हेमगिरेर्लदेव विकस्वरं नाकनदेवपद्मं पूर्वेव दिङ्नूदनमिन्दुमाभातं पार्वतीनन्दनमादधाना प्रीदात्मना सा प्रयदेन दत्तहस्तावलम्बा शशिशेखरेण कुमारमुत्सङ्गतले दखाना विमानमभ्रं लिह मारुरोह महेश्वरोऽपि प्रमदप्ररूढ रोमोद्गमो भूधर अङ्गादुपादत्त तदङ्कतः सा तस्यास्तु सोप्यात्मज वत्सलत्वाद दधानया नेत्र सुधैकसत्रं पुत्रं पवित्रं सुदया तया संश्लिष्यमाणः शशिखण्डधारी विमानवेगेन गृहाज्जगाम अधिष्ठितः पाडिकशैलशृङ्गे तुङ्गे निजं धाम निकामरम्यं महोत्सवाय प्रमथप्रमुख्यान् पृथून् गणाञ्चम्बुरथादिदेश पृथुप्रमोदः प्रगुणो गणानां गणः गना समग्रो वृषवासनस्य गिरीन्द्रपुत्र्यास्तन यस्य जन्मन्यथोत्सवं संवृदे विधातुं स्फुरन्मरीचिचुरिदाम्बराणि संतान तान शाखि प्रसवाजिता उचिक्षिभु कांचन तोरणा गणिफिका दिक्षु प्रसर्पस्त प्रसर्पस्दीण मधाणी मध्यलोक महोत्सव शंसिदुमाहतो न्यायिदध्वान् धीरः पडः पडीयान् महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणां सम्भावितानां गिरिराजपुत्र्या गृहे भवन्मङ्गलगीतकानि सुमङ्गलोपायनपात्रहस्तास्तं मादरो मातृवदभ्युपेताः विधाय दुर्वाक्षतकनिमूर्ध्निन्युस्वमङ्गं गिरिचातनूजम् ध्वनत्सु दुर्येषु सुमन्त्रमङ्ग्या लिङ्ग्योर्ध्वकेष्वप्सरसो रसेन सुसन्धिबन्धं ननृतु सुवृत्तगीतानुगं भावरसानुविद्धम् वादावुसौख्यकरा प्रसेदुराशा विधूमो हुत भुग्दिदीपे जलान्य भूवन्विमान तत्रोत्सवेन्दे प्रसाद सद गंभीरशंगश्रमुच्चर्गृहोदव दुंदुभयेदु दिव कस्ा विमान संखा विमुच्य पुष्प्रचयासु महेशाद्रिसुता सुतस्य जन्मोत्सवे सम्मदयाञ्चकार चराचरं विश्वमशेषमेतत् परं चकम्बे किल तारकश्रीः ततः कुमारसमुदां निदानैः गिरीश गौर्ो हृद जहार मुदेन हृद्या कि महेशुता चर्षा सतर्षन मुखेन गाढ़तदंधा मुखा सूनो मनोहरा क्रमतश्चुचुम्ब क्वचित् स्खलद्भिः क्वचिदस्खलद्भिः क्वचित् प्रकम्भैः क्वचिदप्रकम्पैः क्वचित क्वचित बालसलीलाचलनप्रयोगैस्तयो मुदं वर्धयति स्म पित्रोः अहेदुहासच्चुरिदाननेन्दुर् गृहाङ्गणक्रीडनधूलिधूम्रः मुहुर्वदन् किजिदलक्षितार्थं मुदं तयोरङ्गगतस्तदान गृह्णन्विषाणेहरवाहनस्य स्पृशन्नुमागे शरिणं सलीलं स भृङ्गिणः सूक्ष्मतरं शिखग्रं करुषन् बभूव प्रमदाय येको प्रमादाय पित्रोः एको नव द्वौ दशपञ्चसप्तेत्यजिगणनात्ममुखं प्रसार्य महेशकण्ठोरगदन्तपङ्क्तिं तदङ्कच्चैशवमौद्यमहिषिः कपर्दिकण्ठान्तकपालदाम्नोऽङ्गुलिम् प्रवेश्यानकोटरेषु दन्दानुपातुं रभसि बभूव मुक्ता फलभ्रान्तिकरकुमारः शम्भो शिरोन्धसरितस्तरङ्गान्विगाह्य गाढं शिशिरान्नसेन सचादाड्यम कंधरस्य विलोचनाचिकल भंगुरकंधर धरस्य शंभो प्रलंबान किल कौन चीर चुचुंबे मुकुटेन्दुंडम सिद्ध शिष्य शैशव के लिए वृत्तागिरीजागिरीशौ मनो, भी मनो विनो ना विनोद कदाचित। दिवाशं नीद कदाचिद यदि विचित्र विचित्रित ललितललितं सान्द्रानन्दं मनोहरमाचरन् अलभद परां बुद्धिं षष्ठे दिने नवयौवनं सकिल सकलं शास्त्रं शस्त्रं विवेद विभुर्यया इति एकादशसर्गः ओम्